श्रीमन्महाभारतम् सभापर्वणि द्यूतपर्वणि युधिष्ठिरानयने सप्तपञ्चाशत्तमो अध्यायः शकुनिरुवाच यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे तप्यसेतां हरिष्यामि द्यूतेन जयतां वर आहूयतां परं राजन् कुन्तीपुत्रो युधिष्ठिरः अगत्वा संशयमहमयुध्वा च मूमुखे अक्षान् क्षिपन्नक्षतः सन् विद्वानविदुषोजये ग्लहान् धनुंषि मे विद्धि शरानक्षांश्च भारत अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् दुर्योधन उवाच अयमुत्सहते राजन्छ्रियमाहर्तुमक्षवित् द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि धृतराष्ट्रौवाच स्थितोऽस्मि शासने भ्रातुर्विधुरस्य महात्मनः तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयं दुर्योधन उवाच व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः पाण्डवानां हिते युक्तो न मम कौरव नारभेतान्य सामर्थ्यात् नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः मतिसाम्यं वयोर्नास्ति कार्येषु कुरु भयं परिहरन् मन्द आत्मानम् परिपालयन् वर्षासु क्लिन्न न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् धृतराष्ट्र उवाच सर्वथा पुत्रबलिभिर्विग्रहो मे न रोचते वैरम् विकारम् सृजति तद्वै शस्त्रमनायसं अनर्थमर्थम् मन्यसे राजपुत्र संग्रंथनं कलहस्याति घोरम् तद्वै प्रवृत्तं तु यथाकथञ्चित् सृजेदसीन् निशितांसायकांश्च दुर्योधन उवाच द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न सम्प्रहारः तद्रोचताम् शकुनेर्वाक्यमद्य सभाम् क्षिप्रम् त्वमिहा ज्ञापयस्व स्वर्गद्वारम् दीव्यताम्नो विशिष्टम् तद्वर्तिनाम् चापि तथैव युक्तम् भवेदेवम् ह्यात्मना तुल्यमेव दुरोदरम्